भगवद्गीता चाप्टर् वन् बोष वन् टु टेन् अध प्रथमोऽध्यायः धृतराष्ट्रौ वाच धर्मक्षेत्रे कुरुक्षेत्रे समवेदाय उत्सवः मामता पाण्डवाश्चैव किम कुर्वद सञ्जय दृष्ट्वा तु पाण्डवानीदम् यूढम् दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् पश्यैराम् पाण्डुपुत्राणामाचार्यमजवीञ्चमो यूदान्द्रुपदपुत्रेण तव शिष्येण भीमता अत्र चो रामहे श्वासा भीमार्जुन समायुधि युयुधानो विराडश्च ध्रुपदश्च महारथः कृष्णे दुश्चेतिदानश्चाशिराजश्च वीर्यवान् गुरुजिकुण्डिबोजश्च शैवश्च नरपूरवः युधामन्यश्च विक्रान्त उत्तम औदाश्च सौभद्रो द्रौभदेयाश्च सर्व एव महारदाः <laughs> अस्माकं तु विशिष्टा ये नायका मम सैन्यस्य संज्ञा सन्तान् व्रहीणि दे भवान् कर्णश्च कृपश्च समिति अश्व सौमदर्थे सदैव च अन्ये च बहवशूरा मदर्थेऽस्य क्रजीविताः नानाचक्रप्रकरणात् सर्वे युद्धविशारदाः अपर्याप्तम् तदस्मादम् बलम् भीष्माभि रक्षितम् क्षितम् भगवद्गीता चाप्टर् वन् वर्षस् इलेवन्त् ट्वेन्टी अयनेषु च सर्वेषु यदा भागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि तस्य सञ्जनयन्कर्षं कुरु वृद्ध पितामहः सिंहनादं विनद्योच्चैः शङ्घं दत्मौ प्रतापवान् तदशङ्खाश्च भैर्यश्च पणवानद गोमुखाः सहसैवाभ्यकन्यन्दसशब्दस्तुमुलोऽभव तदश्वेदैर्हर्युक्रे महदिस्यन्दने स्थिधौ माधवपाण्डवश्चैव दिव्यौ शङ्घौ प्रदत्मधुः पाञ्चजन्यं हृषीकेशो देवदत्तं पौण्ड्रं दत्मौ महाशङ्घं भीमकर्मा मृगोदरः राजा कुन्दीपुत्रो युधिष्ठिरः नकुलः सह देवश्च सुखोषमणिपुष्पकौ काश्यश्च परमेश्वासशिखण्डी च महारथः दृष्टद्युम्नो विराडश्च साध्यभिश्च पराजितः ध्रुपतो द्रौपदेयाश्च सर्वशक् पृथिवीपदे सौभद्रश्च महाबाहु शकन्धत् सकोशोद्धार्तराष्ट्राणां हृदयानि व्यधारयत् नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् अधव्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कवित्वजः प्रवृत्ते शस्त्रसम्पादे धनुरुद्यम्य भगवद्गीता चाप्टर् वन् वर्षस् ट्वेण्टि वन् टु तर्टि कृषिकेशन् तदा वाक्यमिदमाहमहीपदे अर्जुन उवाजा सेनयोरुभयोर्मध्ये रथं स्थापयमेच्छुदा यावदेधान्निरीक्षेखं योद्धुकामानवस्थितान् तैर्मया सह योद्धव्यमस्मिन्नसमुद्यमे योत्स्यमानानवेक्षेकं ययेदेत्र समागताः डाक्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीत्सवः सञ्जय उवाच एवमुक्तो वृषि केशो ेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्मद्रोणः प्रमुखतः सर्वेषाञ्चमहीक्षिताम् उवाच पार्थ पश्यैदान् समवेदान् कुरूनि तत्रापश्य स्थितान् पार्थ पितृ महान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा श्वशुरान् सुहृदश्चैव सेनयोरुभयोरवी तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् कृपया परया विष्टो विषीदन्निदमब्रवीत् अर्जुन वाच दृष्ट्वेमं स्वजनं कृष्णयुयुत्सुं समुपस्थितं सीतं हिममगात्राणि मुखञ्च परितुष्यति व्यपदुश्च शरीरे मे रोमहर्षश्च जायते गाण्डीवं संसदे हस्तास्त्वैव परिदह्यते न च मे मनः भगवद्गीता चाप्टर् वन् वर्सस् तर्टि वन् टु फोर्टी निमित्तानि च पश्यामि विपरीतानि केशव न च विजयं कृष्ण न च सुखानि च किन्नो राज्येन राज्ये न गोविन्द किं भोगैर्जीवितेन वा येषामर्धे काङ्क्षिदन्नो राज्यं भोगः सुखानि च त इमे वस्तिधा युद्धे प्राणान् त्यक्त्वा जनानि च आचार्यात्पितरकुत्रास्तदैव च पितामहाः माधुला श्वशिरा पौत्रा स्यालासम्बन्धिनस्तथा यदा न हन्तुमिच्छामि पावमेवाश्रये तस्मान् हत्वयिदानाददायिनः तस्मान्नार्था वयं कन्दुन्धार्तराष्ट्रान् स्वबान्धवान् स्वजनं हि कथं कत्वा सुखिनस्याममाधव यद्यप्येतेन पश्यन्ति लोभो भगतचेतसः कुलक्षय कृतं दोषं मित्रद्रोहे जपातकम् कथन्न ज्ञेयमस्माभिः पावादस्मान्निवर्तितुं कुलक्षय कृतं दोषं प्रपश्यद्युर्जनार्दना कुलक्षये प्रणश्यन्ति कुलधर्मास्सनातनाः धर्मे नष्टे कुलं कृष्णमधर्मोऽभिभवत्युद भगवद्गीता चाप्टर् वन् वर्सस् फोर्टि वन् टु फोर्टि सेवन् अधर्मा विभवा कृष्णप्रदुष्यन्ति कुलस्त्रियः स्त्रीसु दुष्टासु वाष्णेयजाय देवर्णशङ्करः सङ्गरो नरकायैव कुलग्नानां कुलस्य च पतन्तिपितरो ह्येषां लुप्तपिण्डोदकक्रियाः दोषैरेदैः कुलग्नानां वर्णसङ्गरकारकैः उत्साद्यन्ते जातिधर्मा कुलधर्माश्च शाश्वताः उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन नर वासो भवदीत्यनुशुश्रुमा अहो बधमहत्पापं कर्तुं व्यवसिता वयं यद्राज्यसुखलोभेन कन्तुं स्वजनमुद्यताः यदि शस्त्रपाणयः राष्ट्रारणेहन्युस्तन्मे क्षेमधरं भवेत् सञ्जय उवाजा एवमुक्त्वार्जुनसङ्ख्ये रदोपस्त उपाविशद्विसृज्य सशरञ्जाभं शोकसंविघ्नमानसः ॐ तत्स इति श्रीमद्भगवद्गीतासूपनिषत्सु प्रथमोऽध्यायः